शिवगीता तृतीयोऽध्यायः अगस्त्य उवाच न गृह्णादिव च पत्यं कामक्रोधादिपीडितः इतं न तस्य मुमूषोरिव भेषजम् मध्ये समुद्रं जानीता सीता दैत्येन मायिना आयास्यति नरश्रेष्ट सा कथं तव सन्निधिं पद्यन्ते देवताः सर्वा द्वारिमर्कटयुतवत् किञ्चचामरधारण्यो यस्य सन्ति सुराङ्गनाः पुङ्क्ते त्रिलोकीम् अखिलां यः शम्भु वरदर्पितः निष्कण्टकं तस्य जयः कथं तव भविष्यति इन्द्रजिद् नाम पुत्रो यः तस्य अस्ति ईशवरोद्धतः तस्याग्रे सङ्करे देव बहुवारम् पलायिता कुम्भकर्णाह्वयो भ्राता यस्यास्ति सुरदोदनः अन्यो दिव्यास्त्रसंयुक्तः शिरजीवीविभीषणः दुर्गं यस्यास्ति लङ्काख्यं दुर्जेयं देवदानवैः चतुरङ्गबलं यस्य वर्तते कोटिसङ्ख्यया एकाकिना त्वया जेयः स कथं नृपनन्दन आकाङ्क्षते करे धर्तुं बालश्चन्द्रमसं यथा तथा त्वं काममोहेन जयं तस्याभिवाञ्छसि श्रीराम उवाच क्षत्रियोगं मुनिश्रेष्ट भार्या मे रक्षसा हृदा यदि तं न निगन्यासु जीवने मे अस्ति किम्पलम् अतस्ते तत्त्वबोधेन न मे किञ्चित्प्रयोजनम् कामक्रोधादयः सर्वे दहन्त्येते दे तनु मम अहङ्कारोऽपि मे नित्यं जीवनमन्तुमुद्यतः कृतायां चकान्तायां शत्रुणा अवमतस्य वा यस्य तत्त्वबुभुत्सा स्यात् स लोके पुरुषादमः तस्मात्तस्य पदोपायं लङ्घयित्वा अम्बुधिं रणे ब्रूहि मे मुनिषा त्व मे गुरुः अगस्त्य उवाच एवं चेत् शरणं याहि पार्वतीपतिमप्ययम् स चेत्प्रसन्नो भगवान् वाञ्छितार्थं प्रदास्यति देवैः अजेयः चक्राद्यैः हरिणा ब्रह्मणापि वा स ते वद्यः कथं वा स्यात् विना अतत्वां दीक्षयिष्यामि विरजामार्गमाश्रितः तेन मार्गेण मर्त्यत्वम् त्वा तेजोमयो भव येन हत्वा शत्रून् सर्वान् कामान्वाप्स्यसि भुक्त्वा भूमण्डले च अन्ते शिवसायुज्यमाप्स्यसित उवाच अथ प्रणम्य रामः तं दण्डवन्मुनिसत्तमम् उवाच दुःखनिर्मुक्तः प्रकृष्टेन अन्तरात्मना श्रीराम उवाच कृतार्थं मुनि जातो वाञ्छितार्तो ममागतः पीतां बुधिः प्रसन्नस्त्वं यदि मे किमु दुर्लभम् अतस्त्वं विरजां दीक्षां ब्रूहि मे मुनि सत्तम् अगस्त्य उवाच शुक्लपक्षे चतुर्दश्याम् अष्टम्यां वा विशेषतः एकादश्यां सोमवारे आर्द्रायां वा समारभेत् यं वायुम् आहुः यं यम रुद्रं यमग्निं परमेश्वरं परात्परतरं चाहुः परात्परतरं शिवम् ब्रह्मणो जनकं विष्णोः वह्नेर्वायो सदाशिवं ज्ञात्वा अग्निना आवसत्याग्निं विशोद्य च पृथक् पृथक् पञ्चभूतानि संयम्य ज्ञात्वा गुणविधिक्रमात् मात्रा पञ्च चतस्रश्च त्रिमात्रादिस्ततः परम् एकमात्रम् द्वादशान्तं व्यवस्थितं दित्यां स्थाप्यामृतो भूत्वा व्रतं पाशुपतं चरेत् इदं प्रतं पाशुपतं करिष्यामि समासतः प्रातरेवं तु सङ्कल्प्य निदाय अग्निं श्वशाखया पोषितः शुचिः स्नातः शुक्लाम्बरधरः स्वयम् शुक्लयज्ञोपवीतश्च शुक्लमाल्यानुलेपनः दुह्यात् ग्रजामन्त्रैः प्राणापानादिभिः ततः अनुवाकान्तमेकाग्रः समिता चरून् पृथक् आत्मनि अग्निं समारोप्य मंत्रतः मन्त्रतः पस्मादायाग्निरित्याद्यैः विमृज्य अङ्गानि संस्पृशेत् पस्मच्छन्नो भवेद्विद्वान् महापातकसम्भवैः पापैर्विमुच्यते सत्यम् मुच्यते च न संशयः वीर्यम् अग्नेर्यतो भस्म वीर्यवान् भस्मसंयुतः भस्मस्नानरतो विप्रो भस्मशायी जितेन्द्रियः सर्वपापविनिर्मुक्तः शिवसायुज्यम् आप्नुयात् एवं कुरुमहाभाग शिवनामसहस्रकम् इदन्तु तु सम्प्रदास्यामि तेन सर्वार्थम् आप्स्यसि सूतौ इत्युक्त्वा प्रददौ तस्मै शिवनामसहस्रकं वेदसाराभिधं नित्यं शिवप्रत्यक्षकारकम् उक्तं च तेन राम त्वम् जपनित्यं दिवानिशं ततः प्रसन्नो भगवान् महापाशुपदास्त्रकम् तुभ्यं दास्यति तेन त्वं शत्रून् हत्वा आप्स्यसि प्रिया तस्यैव अस्त्रस्य माहात्म्यात् समुद्रं शोषयिष्यसि संहारकाले जगताम् अस्त्रं तत्पार्वतीपतेः तदलाभेदानवानां ययः तव सुदुर्लभः तस्मात् लब्धं तदेवास्त्रं शरणं याहि शङ्करम् इति श्रीपद्मपुराणे शिवगीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे विरजादीक्षानिरूपणं नामे तृतीयोऽध्यायः